पञ्चशीतितमोऽध्यायः वैशम्पायन उवाच पौरवेणाथ वयसा ययातिर्नहुषात्मजः प्रीतियुक्तोऽनुपश्रेष्ठश्च चार विषयान् प्रियान् यथाकामम् यथोत्साहम् यथा कालम् यथा, यथा सुखम् धर्माविरुद्धम् राजेन्द्र यथार्हति स एव हि देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत् पितॄनपि दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् अतिथीनन्नपानैश्च विशश्च परिपालनैः अनुशंस्येन शूद्रांश्च दस्योन्सन्निग्रहेण च धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् ययातिः पालयामास साक्षादिन्द्र इवापरः स राजा सिंह विक्रान्तो युवा विषय गोचरः धर्मस्य चचार चा सुखमुत्तमम् स सम्प्राप्य शुभान् कामान्स्त्रुप्तः खिन्नश्च पार्थिवः कालम् वर्ष सहस्रान्तम् सस्मारमनुजाधिपः परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् यौवनम् प्राप्य राजर्षिः सहस्र परिवत्सरान् विश्वाच्या सहितो रेमे व्यभ्राजम् वने अलकायाम् स कालम् तु मेरुशृङ्गे तथोत्तरे यदा स पश्यते कालम् धर्मात्मातम् महीपतिः पूर्णम् मत्वा ततः पुत्रमुवाचः यथा कामम् यथोत्साहम् सेविता विषयाः पुत्र यौवनेन मया न जातु कामः कामानामुपभोगेन शाम्यति हविषा कृष्णवर्त्मेव भूय एवाधिवर्धते यत् पृथिव्याम् व्रीहियवम् हिरण्यम् पशवस्त्रियः एकस्यापि न पर्याप्तम् तस्मात्तृष्णाम् परित्यजेत् या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः योऽसौ प्राणान्तिको रोगस्ताम् तृष्णाम् त्यजतः सुखम् पूर्णम् वर्ष सहस्रम् मे विषयासक्तचेतसः तथाप्यनुदिनम् तृष्णा ममैतेष्वभिजायते तस्मादेनामहं त्यक्त्वा ब्रह्मण्याधाय मानसम् निर्ममो भूत्वा चरिष्यामि मृगैः सह पूर्व प्रीतोऽस्मि भद्रम् ते राज्यं चेदं राज्यम् त्वम्हिमे गृहाण त्वम् त्वम् राजा ययातिर्नाहुषस्तदा यौवनम् प्रतिपेदे च पुनरात्मनः अभिषेक्तु कामम् नृपतिम् पूरुम् पुत्रम् कनीयसम् ब्राह्मण इदं इदम् वचनमब्रुवन् कथम् शुक्रस्य नप्तारम् देवयान्याः सुतम् प्रभो ज्येष्ठम् यदुमतिक्रम्य राज्यं पूर्वः प्रयच्छसि यदुर्ज्येष्ठस्तव सुतो जातस्तमनुतुर्वसुः सुतो दृह्यस्ततो नुः पूरुरेव च कथम् राज्यमर्हति एतत् सम्बोधयामस्त्वाम् धर्मम् प्रतिपालय ययातिरुवाच ब्राह्मण प्रमुखावर्णाः सर्वे शृण्वन्तु मे नदेयं ज्येष्ठम् प्रति यदुना नियोगो नानुपालितः प्रतिकूलः पितुर्यश्च न स पुत्रः सताम् वर्तते पितृमातृषु व्याख्या दुःखम् विदुः पुतस्त्राणात्ततः पुत्रम् आत्मन सदृश पुत्र पितृदेवर्षि पूजनेो गुणकरस सपुत्रो ज्येष जेश्ट उच्यसे ज्येष्ठाश भाक्स गुणकृद इहलोके पेयान पुपुत्रो गुणोपेत सपुत्रो नेतरो वृथ वदर्म्म जितूण् पुत्र कारण यदुनाहम्ञातस्तथसुना चुह्नाणा चय्यवृता भृश् पुर्णा वाक्यं मानित विशेष खनीयान ममदो धृता जरा मम मम कामस्य च कृतः पूर्णामित्ररूपिणा शुक्रेण च वरो दत्तः काव्येनो पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः भवतोऽनुनयाम् एवम् पूरुराज्येऽभिषिञ्चताम् प्रकृतय ऊचुः यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सर्वमर्हति कल्याणम् कनीयानपि सत्तमः अर्हः पूरुरिदम् राज्यम् यः सुतः वरदानेन शुक्रस्य न शक्यम् वैशम्पाय न उवाच पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा अभ्यषिञ्चत्ततः पूर्वम् राज्ये स्वे सुतमात्मनः पूरवे राज्यम् वनवासाय दीक्षितः पुरात्स राजा ब्राह्मणैस्तापसैः यदोस्तु यदोऽस्तु यादवा जातास्तुर्वसौर्यवनाः स्मृताः दुह्योः सुतास्तु वै यत्र जातोऽसि पार्थिव इदम् वर्ष सहस्राणि राज्यम् वशी इति महाभार आदिपर्वि सवर्वख्या पूर्वयायात सौ पंचाशीति तमोध्याय